श्रीहर्ये नमः अथ सप्तदशोऽध्यायः श्रीशुक उवाच तत्र भगवतः साक्षात् यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्टनकनिर्भिन् ऊर्ध्वाण्डकटाहविवरेण अन्तः प्रविष्ठाया बाह्यजलधारां तच्चरणपङ्गजावने जनारुणा किञ्जल्कवुपरञ्चिता किल जगत् कमलापहोपस्पर्शनामला साक्षाद्भगवत्पधीद्यनुपलक्षितवशो वितीयमानापि महता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धनि अवततार यत्तद्विष्णुपदमाहुः यत्र हावीरव्रत औत्थानाभातिः परमभागवतोऽस्मत्कुलो देवता शरणारविन्दुदकमिति यामनुसवनम् उत्कृष्यमाण भगवद्भक्तियोगेन दृढं ग्लित्यमानान्तर्हृदय औत्कण्ठ्य विवसा मीलितलोचनयुगल कुट्मलविगलित अमलभाष्यकलया अभिव्यज्यमानरोम पुलककुलको अधुनापि परमादरेण शिरसा बिभर्ति ततः सप्तर्ष्यस्तत् प्रभावाभिज्ञायां ननु तपस आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुतेवे अनुपरतभक्तियोग लाभेनैव वा उपेशितान्यार्थात्मगधयो मुक्तिमिवागता मुमुषव इव शुबहुमानम् अद्यापि जटाजूटै उद्वहन्ती ततोऽनेकसहस्रकोटिविमानानीकशङ्कुलदेवयानेन अवतरन्तीन्दुमण्डलम् आवार्य ब्रह्म सदेन निपततिम् तत्र च दुर्धा विद्यमाना चतुर्भिर्नामभिश्चतुर्धिशम् अभिस अभिस्पन्दन्ति नदनतीपतिमेव अभिनिवसति सीता अलह नन्दा चक्षुर्भद्रेति सीता तु ब्रह्मसदनात् केसराचलादि गिरिशिखरेभ्योऽधोतः प्रस्रवन्ति गन्तमाधनमूर्धसो पदि द्वान्त्रेण भद्रास्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशतिं एवं माल्यभत् शिखरा निष्पतन्ति ततो प्रतीचां दिशि सरित्पतिं प्रविशतीं भद्रा च उत्तरतो मेरुशिरसो निपतिता गिरिशिखराद् गिरिशिखरम् अभितवतीच्यां दिशि जलतीम् अभिप्रविशति तथैव अलहनन्दा दक्षिणेन ब्रह्मसदनात् बहूनि गिरिकूटानिम् अतिक्रम्य हेमकूटात् हैमकूटान्यधिरभसधरं रह्मसा भारतमभिवर्षं दक्षिणस्यां दिशि जलदिमभि प्रविशति अस्यां स्नानार्थं च आगश्च तपुंसः पदे पदे अश्वमेधराजसूयादिनां फलं अन्ये च वर्षे वर्षे सन्निबहु सोमेर्वादि गिरितु हितरः तत्रापि भारतमेव वर्षं कर्मक्षेत्रम् अन्यानि अष्टवर्षाणि स्वर्गिणां पुण्यशेषोभ भोगस्ता भौमानी स्वर्गपा व्यपति सीष पुषाण पुषायुर्वाण दुत प्राण वज्र संहन भलवयो मोद प्रमुदितां महासौरतमिथुन व्यवायापवर्गवर्ष धृतैकगर्भकळत्रणां तत्र तु त्रेतायुगसमः कालो गणनायकैर्विहितमहार्हणाः सर्वर्तुकुसुमस्तभगफलकिसलश्रियाम् आनम्यमानविटपलतां विडपिभि उपशुम्भमान रुचिरकानन आश्रमायतनवर्ष गिरिद्रोणिषु तथा च अमलजलाशयेषु भी विकसविविध नभवनरुहामोदमुदित राजहंसजलकुक्कुडकारण्ढवसारसचक्रवाघादिभिर्मधुकर नितरात्कृतिभिरुप कूचिदेषु जलक्रीडादिभिर्विचित्रविनोदये सुललितं सुरसुन्दरीणां कामकलिलविलासहास लीला लीलावलोकाकृष्टमनो दृष्ट्य स्वैरं विहरन्तीं नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषाणां तदनुग्रहाय आत्मतत्त्वव्यूहेन आत्मना अद्यापि सन्निधीयते इलावृते भगवान् भव एक एव पुमान्न ह्यन्द्यस्तत्रापरो निर्विशति भवान्य सापनिमित्तज्ञो यत्प्रवेक्षयतस्त्रीभावस्तत्पश्चात् भवानीनाते भवानीनाथे स्त्रीगणार्बुतसहस्रे अवरुध्यमानो भगवतश्चतुर्मूर्तेर्मपुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिम् आत्मनः सङ्कर्षणसंयज्ञाम् आत्मसमाधिरूपेण सन्निधाप्यैतत् अभिग्रणन् भव उपधावती श्रीभगवानुवाच ॐ नमो भगवते महापुरुषाय सर्वगुणशङ्क्यनाय अनन्ताय अव्यक्ताय नमयिति भजे भजन्यारणपादपङ्गजं भगस्य कृष्णस्य परम्परायणम् भक्तेश्वलं भावितभूतभावनं भवापहं त्वा भवभावमीश्वरं न इरीक्षतोह्यन्वपे दृष्टिरज्यते वृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्जते ईशे यतानोजितमन्योर् कस्तं न मन्येत जिगीषुरात्मनः क्षीभेव मद्वासवताम्रलोचनः न ना नागवत्वोर्हणयिषिरे ह्रिया यत्पादयो स्पर्शणदर्शिदेन्द्रियाः यमाहुरस्य त्रिभिर्विहीनं यमनन्दं ऋषयत्नवेदसिद्धात्मिव स्थितं भूमण्डलं मूर्ध सहस्रधामसूं यस्याद्य आशीद्गुणविग्रहो महान् विज्ञानदिष्ण्यो भगवानजः किल यः सम्भोगं त्रिव्रता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजेम् एते वयं यस्य वसे महात्मनः स्थिता इव शूद्रयन्त्रिताः महानहं वै कृततामशेन्द्रियां सृजाम सर्वे यदनुग्रहादीधं यन्निर्मितां गर्ह्यपि कर्मपर्वणि मायां जनोयं, गुणसर्गमोहितः न वेदनिस्तारणयोगमञ्जसा तस्मै नमस्ते विलयो दयात्मने इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्ते सप्तदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द